श्रीहरये नमः अथ अष्टमोऽध्यायः मैत्रेय उवाच सनघत्यानारधस्य रुपोर्हंसोऽर्यधिहे नैते गृहान् ब्रह्मसुता ह्यावसन्वूर्ध्वरेतसः मृषधर्मस्य भार्यासीत् दम्भम् मायां च सत्रुहन् असूतमिथुनं तत्तो निरृतिर्जगृहे प्रजहा तयोः समभवल्लोभो निकृतिश्च महामते ताभ्यां क्रोधस्य हिंसा यद्धुरुक्तिस्व सा कलिः दुघृतौ भयं मृत्युं च सत्तमां तयोश्च मिथुनं यथा ना निरयस्तथा सङ्ग्रहेण मयाख्याथ प्रतिसर्गस्तवानघा त्रिशुत्वैत पुमान् पुण्यम् विधुनोति आत्मनो मलम् अथ कीर्त्य स्वायम्भुवस्यापि मनोर् हरे अंसां स जन्मनः सतरूपापथे सुतो वासुदेवस्य कलया रक्षायां जकथस्थितौ जाये उत्थानपाधस्य सुनीतिः शुश्रुचिस्थयोः सुरुचिः स्प्रेयसी ध्रुवः एकधा सुरुचिः पुत्रम् अङ्कमारोप्यलालयन् उत्तमं नारुरुषन्तं ध्रुवं राजाभ्यनन्दत तथा चिकीर्षमाणं तं सपत्न्यास्तनयं ध्रुवं गुरुचिशृण्वतो राज्ञ शेर्षम् आहाति गर्वित न वत्स नृपतेर्दिष्ण्यं भवान् आरोढुम् अर्हते न कुक्षावपि नृपात्मजः बालोऽसि भतनात्मानम् अन्यस्त्रीगर्भसम्भृतं नूनं वेत भवान् यस्य दुर्लभेऽर्थैर्मनोरथः तपसाराध्यपुरुषं तस्यैवानुग्रहेण मे साधयात्मानम् यधिश्च सी नृपासनम् मैत्रेयुवाच मातु सपत्न्या स दुरुग्धिविद्ध स्वसंनृषा दण्टहतो यथाहि हे हि त्वा मिषन्तं पितरं सन्नवासं झघाम तं निःश्वसन्तं स्फुरिताधरोष्ठं सुनीते उत्सङ्ग उदूह्य बालं निसंयतत्पौरमुखान्नितान्तं यद्गतितं सपत्न्या सोऽदृश्यधैर्यं विललापशोक धा धावाग्निना धावलथेव भाला वाक्यं सपत्न्या स्मरति सरोच श्रियादृशा बाष्पकलामुवाह दीर्घं स्वसन्ती वृजिनस्य पारम् अपश्यति बालकमाखबाला मामङ्गलं तातपरेषु मंस्ता भुङ्क्ते जनो यत् परदुःखधस्त सत्यं सुरुश्चाभिहितं भवान् मे यद्दुर्भगाया उदरे गृहीतः स्तन्येन वृद्धश्च विलज्जते याम् भार्येति वावोडो मृढस्पतिर्माम् आदिष्टतत्तातविमत्सरस्त्वं। उक्तं स मात्राभियथव्यलीकम् आराधयादोक्षजबाधपद्मं यतिश्च सेध्यासनमुत्तमो यथा यस्याग्रि पद्मं परिचर्य विश्वम् विभावनायात्त गुणाभिपत्तेः अजोद्यतिष्ठत्कलु परमेष्ट्यं पदं जितात्मस्वसनाभिवन्द्यं तथा मनुर्वो भगवान् पितामहो यमेकमद्या इष्ट्वा बिभे तद् दुरवापमन्यतो भौमं सुखं दिव्यम् अथापवर्घ्यं तमेव वत्साश्रयभृत्यवत्सलं मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम् अनन्यभावे निजधर्मभाविते मनस्य अवस्थाप्य भजस्व पूरुषं नान्यं ततः पद्मपलाशलोचनात् दुःखचितं ते मृगयापि कञ्चन यो मृग्यथे हस्तगृहीतपद्मयां श्रियेतरैरङ्गविमृग्यमाणयां मैत्रेयौ उवाच मातुराकर्ण्य अर्थागमं वचः स निव्ययात्मनात्मानं निश्चक्रामपितुः पुरात् नारदस्तदुपाकर्ण्यं ज्ञात्वा तस्य चिकीर्षितम् स्पृष्ट्वा मूर्धन्यगग्नेन पाणिना प्राकविस्मितः अहो ते च क्षत्रियाणां मानभङ्गम् अमृष्यतां बालोऽप्ययं हृदा दत्ते यत्समाधुरसद्वचः नारथ उवाच नाधुनापि अवमानं ते सम्मानं वापि पुत्रकम् लक्षयामकुमारस्य सक्तस्य क्रीडनादिषु विकल्पे विद्यमानेऽपि ह्यसन्तोषहेतवः पुंसो मोहमृते भिन्ना यल्लोगनिजकर्मभिः परितुष्येततस्तात् तावन्मात्रेण पूरुषः दैवोपसाधितं यावत् वीक्ष्येश्वरगतिं बुधः अथ मात्रो बधिष्ठेन योगेन अवरुरुत्से यत्प्रसादं स वै धुराराध्यो मथो मम मुनयः यस्य निस्सङ्गेन उरुजन्मभेर्न विधुर्मृगयं तोऽपि तीव्रयोगसमाधिना अथो निवर्ततां येष निर्बन्धस्तव यदिष्यति भवान् काले स्वेयसां समुपस्थिते यस्य यद्धैव सतेन स तेन आत्मानं दोषयन् देहे तमसः परामृच्छीं लिप्सेत् अनुग्रोसं गुणाधमात् मैत्रीं समानाधन्विच्छेन्न तापैरभिभूयते ध्रुवच सोऽयं समो भगवता सुगदुःखतात्मनां दर्शितकृपया पुंसां दुर्दोस्मत् अथापि मे विनीतस्य क्षात्रं घोरमुपेयुषः सुरुच्या धुर्वचो भाणैर्न भिन्ने शयते हृदि पदं त्रिभुवनमुत्कृष्टं जिगीषोऽसाधु वर्त्ममे ब्रूह्यस्मत्पितृभिर्ब्रह्मन् अन्य अप्यनधिष्ठितं नूनं भवान् भगवतो योऽ गजः परमेष्टिनः विदुतन्नट देवीणां हितार्थं जगतोर्खवत् मैत्रेय उवाच इत्युदाहृतमाकर्ण्यं भगवान् नारदस्तथा प्रीतप्रत्यागतं बालं सत्त्वाक्यं मनुकम्पयां नारद उवाच जनन्या अभिहितः पन्ता सैवैनिश्रेयसस्यते भगवान् वासुदेवस्थं भज तत्प्रवणात्मना धर्मार्थकोममोक्षायं ययिच्चे आत्मनः एकमेव हरेस्तत्र कारणं पादसेवनम् तत्तादगच्छ भद्रं ते यमुनायास्तट शुचिं पुण्यं मधुवनं यत्र सान्नित्यं नित्यधा हरे स्नात्वा अनुवसनं तस्मिन् काळिन्ध्या शशिले शिवे निवसन् आत्मनः कल्पिता सनः प्राणायामेन वृथा प्राणेन्द्रियमनोमलं सनैर्व्युधस्याभित्यायेत् मनसा गुरुणा गुरुं प्रसादापिमुखं शश्वत् प्रसन्नभदनेक्षणं सुनासं चारुकपोलं सुरसुन्दरम् तरुणं रमणीयाङ्गम् अरुणोष्टे क्षणाधरम् प्रणदाश्रयणं नृम्ण शरण्यं करुणार्णवम् श्रीवत्साङ्गं गणश्यामम् पुरुषं वनमालिनं शङ्खचक्रगधा पद्मैर् अभिव्यक्त चतुर्भुजम् किरीटिनं कुण्डलिनं केयूरवलयान्वितं कौस्तुभाभरणग्रीवं पीतकौशेयवाससं काञ्चीकलाभपर्यस्तं लसत्काञ्चननूपुरं दर्शनीयतमं शान्तं मनोनयनवर्धनम् पद्भ्यां नगमणिश्रेण्यो विलसद्भ्यां समर्चतां हृत्पद्मकर्णिकादिष्ण्यम् आक्रम्य आत्मन्यवस्थितं स्मह्यमानम् अभिध्यायेत् सानुराघावलोकनं नियतेनैकभूतेन मनसा वरधर्षभम् एवं भगवतो रूपं सुभद्रं ध्यायथो मनः निर्वृत्या परया तूर्णं सम्पन्नं न परमो गुह्य श्रूयता मे नृपात्मजा यं सप्तरात्रं प्रपठन् पुमान् पश्यति ॐ नमो भगवते वासुदेवाय मन्त्रेणानेन देवस्य कुर्याद्रैवमयीम्भुतः सपर्याम् विवितैर्द्रव्यैर्देशकालविभाकवित् सलिलैः शुचिभिर्माल्यैर्वन्यैर्मूलबलादिभिः सताङ्गुरां सुखैश्च अर्चेत् तुलस्या प्रियया प्रभुं लब्ध्वा द्रव्यमयीमर्चां षिद्यं भ्वा आपृतात्मा मुनिः शान्तो स्वेष्टावतारशरितै अचिन्त्य निजमायया करिष्यत्युत्तमश्लोकस्तध्यायेत् हृदयङ्गमम् परिचर्या भगवतो यावत्यपूर्वसेविताः ता मन्त्रहृदयेनैव प्रयुञ्ज्यान्मन्त्रमूर्तये एवं कायेन मनसा वचसा च मनोगतं पर्चर्यमाणो भगवान् भक्तिमत्परिचर्यया पुंसाममायिनां सम्यक् भजतां भाववर्धनः स्वेयोधिसत्यभिमतं यद्धर्मादिषु देखिनां विरक्तश्चेन्द्रियरथो भक्तियोग्येन भूयसां। निरन्तरभावेन भजे इत्युक्तस्तं परिक्रम्य प्रणम्य चन्द्रभार्भगः ययो पुण्यं हरेश्चरणचर्चितं तपोवनं गते तस्मिन् प्रविष्टोऽन्तः पुरं मुनिः अर्हि सुकासीन उवाच नारदौ वाच राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यत किं वा कामो धर्मो वार्तेन संयुतः राजोवाच सुतो मे बालको ब्रह्मन् स्त्रैणेन अकरुणात्मना निर्वासितः पञ्चवर्ष सह मात्रा अप्यनाथं वने ब्रह्मन् मा स्नाध्यन्त्यर्भखं मृकाः शान्तं शयानं क्षुधितं परिम्लानमुकाम्बुजम् अहो मे पधधौद्राम्यं स्त्रीजितोपधारय योऽघं प्रेम्णारुरुक्षन्तं नाभ्यनन्दम् असत्तमः नारद उवाच मामा देवगुप्तं विशाम्पते तद्प्रभावं तद्प्रभावमभिज्ञाय प्रावृङ्क्ते यद्यशो जग सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः ऐष्यति अचिरतो राजन् यतो विपुलयं स्तवां मैत्रेयौ वाच इति देवर्षिणा प्रोक्तम् विसृत्य जगति पतिः पुत्रमेव अन्वचितयेत् तत्राभिक्षिक्तं प्रयतस्तामु विभावरेन् समाहितः पर्यसरत् रुष्यादेशेन पूरुषम् त्रिरात्रांते त्रिरात्रान्ते कपित्थभदराशनः आत्मवृत्त्यनुसारणे मासम्न्येऽर्चयन् हरिम् द्वितीयं चतथा मासं षष्ठे षष्ठेर्भगो दिने तृणवर्णाधिभिशीर्णे कृतान्नोऽभ्यर्चयद्विभुम् तृतीयं शानयन्मासं नवमे नवमेहनि अब्भक्ष उत्तमश्लोकम् उभधा चतुर्थमपि वैमासं द्वादशे द्वादशेऽहनि वायुभक्षो जितश्वासो ध्यायन् देवम् अधारयत् पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपाद्मजः ध्यायन् ब्रह्मपधैकेन तस्थौ स्थाणुरिव अचलः सर्वतो मन आकृष्य कृधिभूतेन्द्रियाशयं ध्यायन् बकवथो रूपं नाद्राक्षित्किञ्चन परम् आधारं महधादीनां प्रधानपुरुषेश्वरं ब्रह्मधारयमाणस्य त्रयो लोकाश्च कम्बिरे यथैकपादेन स पार्थिवार्भगतस्थो तथङ्कुष्ठनि पीडितामहे न नामधर्मार्धमिपेन्द्रधिष्ठिता विश्वमात्मनो द्वारं निरुध्यासुमनन्यया धिया सलोकपालाः शरणं युयोर् हरिं देवावूचू नैवं विधामो भगवन् प्राणरोतं शराशरस्य अखिलसत्त्वधाम्नः विदेहि नन्नो विजिनात् विमोक्षं प्राप्ता वयं त्वां शरणं शरण्यं श्रीभगवानुवाच मा बैष्टबालं तपसो निवर्तयिष्ये प्रतियातस्वधा मा यतो हि वः प्राणनिरोध आसीत् औत्थानभादेर्मयि सङ्गतात्मा इति श्रीमद्भागवते महापुराणे चतुस्तस्कन्ते ध्रुवचरिते अष्टमोऽध्यायः